श्रीहरये नमः अथ पञ्चदशोऽध्यायः नारद उवाच कर्मनिष्ठा द्विजाके स्वाध्यायेन्ये प्रवचने ये केचिज्ञानयोगयोः ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता दैवे च तत भावे इतरेभ्यो यथार्हतः द्वौ दैवे पितृकार्ये त्रीन् एकैकम् भोजयेत् सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरं देशकालोचितश्रद्धा द्रव्यभद्रार्हणानि च सम्यग्भवन्ति नैतानि विस्तारात् स्वजनार्पणात् देशे मुन्यन्नं हरिदैवतम् श्रद्धया विदिवत्पात्रे, न्यस्तं कामधुकक्षयं देवर्षि पितृभूतेभ्य आत्मने स्वजनायच, च अन्नं संविभजन् पश्येत् सर्वं तत्पुरुषात्मकं न दध्यातामिशंश्राज्ञे नाशाद्याद्धर्मतत्त्ववित् मुन्यन्नैष्यात्परा यथा न पशु हिंसया नैधातृशः परो धर्मो नृणां सद्धर्ममिच्छता न्यासो दण्टस्य भूतेशो मनों वाक्कायजस्यया एके कर्ममया न ज्ञान ज्ञानिनो यज्ञवित्तमः आत्मसंयमनेह जुह्वति ज्ञानदीपिते द्रव्ययज्ञैर्यक्षमाणं दृष्ट्वा भूतानि बिव्यति एष माकरुणो हन्यात् अतज्ञो ह्यस्तु तृब्द्रुवं तस्माद्धैवोपपन्नेन मुन्यन्नेनापि धर्मवित् सन्तुष्टो हरः कुर्यात् नित्यनैमित्तिकीक्रियाः विधर्मपरधर्मश्च आभास उपमाचलः अधर्म सा का पञ्चेम धर्मज्ञो धर्मवत्यजेद् धर्मभातो विधर्म स्यात् परधर्मोन्यचोदितः उभधर्मस्तु पा कण्ठो दम्भो वा शब्दभिच्छलः यद्विच्छया कृतपुं प्रभासो ह्याश्रमात्पृथक् स्वभावविखितो धर्म कस्य नेष्ट प्रशान्तये धर्मार्थमभिनेहेत यात्रार्थं वादनो धनम् अनीहानीहमानस्य महाहेरिव वृत्तिधा सन्तुष्टस्य निरीहस्य स्वात्मा रामस्य यत् धावतोर्देहया दिशः सदा सन्तुष्टमनस सर्वा सुखमयादिशः सर्कराखण्डगादिभ्यो यथोपानपथः शिवं सन्तुष्टकेन महाराजन्न वारिणा औपस्त्यजैहकार्पण्याद् गृहपालाय ते जनः असन्तुष्टस्य विप्रस्य तेजो विद्या तपोयशः श्रवन्तिद्रियलौल्येन ज्ञानं चैवावकीर्यते काम शान्तं क्रोधस्यैतत्पलोधया जानो याति न लोभस्य चित्वा भुक्त्वा दिशो भुवः पण्डिता बाघबो राजन् बहुज्ञासंसयचिदः सदसस्पतयोऽप्ये के असन्तोषान् पतन्त्यदहा असङ्कल्भाजयेत् कामं क्रोधं कामविभर्जनात् अर्थानर्तेषया लोभं भयं तत्त्वावमर्शनात् आन् वीक्षिक्या शोकमोहो दम्बं महदुपासयां योगान्तरायान् मौनेन हिंसां गायत्यनीहयाम् कृपया भूदजं दुःखं दैवं जह्यात्समाधिना आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया रजस्तमश्च सत्त्वेन सत्वं शोभसमेन च एतत्सर्वं सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जये यस्य साक्षाद्भगवति ज्ञानादीपप्रदे गुरौ मर्त्या सद्दीश्रुतं तस्य सर्वं कुञ्जरसौचवत् एष वयि भगवान् साक्षात् प्रधानपुरुषेश्वरः योगैश्वरैर्विमृग्याङ्घ्रैर्लोकोऽयं मन्यते नरं षड्वर्गसंयमयि कान्तास्सर्वा नियमचोदनाः तदन्तायदिनो योगान् आबहेयोश्रमावहा यथा वार्ताधयो ह्यर्था योगस्यार्थं न बिभ्रती अनर्थाय भवेयुस्ते पूर्तमिष्टं तथा यश्चित्तविजये यत् तस्यान्निषङ्घोपरिग्रहः एको विविक्तशरणो देशे शुचौ समे राजन् संस्थाभ्यसनम् आत्मनः स्थिरम् समं सुखम् तस्मिन् आसीदरुज्ज्वङ्गवोमिति प्राणापानौ सन्निरुद्यात् पूरकुम्भकरे च कैः यावन्मनस्त्यजेत्कामान् स्वनासाग्रनिरीक्षणः यतो यतो निःसरति मनःकामः तम् ततस्तत ततस्ततमुपाहृत्य हृदिरुन्ध्या च नैर्बुदः एवमभ्यसतश्चित्तं कालेनाल्पीयसायतेः अनिशं तस्य निर्वाणं यात्यनिन्दनवग्निवत् कामादिबिरनाविद्धं प्रशान्ता चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हि चित् यः प्रव्रजगृहात् पूर्वं त्रिवर्गावपनात् पुनः यदि तान् भिक्षु सभैवान्ताश्यपत्रपः यै मर्त्यो विकृमिभस्मसात् तयेनमात्मसा कृत्वा श्लाघयन्ति ह्यसप्तमाः गृहस्थस्य क्रियात्यागो प्रतत्यागो वटोरपि तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता आश्रमापसदाह्येते कल्वाश्रमविडम्बकाः देवमायाविपूडांस्तान् उपेक्षेतानुकम्पया आत्मानं चेत्विजानियात् विजानीयात् परं ज्ञानदुशाशयः किमिश्चन् कस्य वा हेतोर्देहं पुष्णातिलं पटः आहूशरीरं रथमिन्द्रियाणि हयानभिक्षुन्मन वर्त्मानि मात्रादिशनां च सूतं सत्त्वं बृहद्भन्तुरमीशसृष्ठम् अक्षम् दश प्राणम् अधर्मधर्मो चक्रेभिमानं रतिनं च जीवं धनुर्हितस्य प्रणवम् पठन्ते शरं तु जीवं परमेव लक्ष्यम् रागो द्वेषश्च लोभश्च सोऽहमोहो भयं मदः मानोपमानोऽसूया च मायाहिंसा च मत्सरः रजःप्रमादक्षुन्निद्रा सत्रभस्त्वेवं मादयः रजस्तमप्रकृतय सत्त्वप्रकृतय क्वचित् यावन्नृकाय या रथमात्मवसोपकल्पम् धत्ते गरिष्ठचरणार्चनयानि साधम् ज्ञानासिं मच्युतबलो दधदस्तशत्रु स्वाराज्यतुष्टमुपशान्तयिदं विजह्यात् नो चेत् प्रमत्तं असदिन्द्रियभाजिसूता नीत्वोत्पथं विषय दशुषु निक्षिपन्ति ते दस्यवः सहयसुतममुं तमोन्दे संसारकोपगुरुं प्रवृत्तं चनिवृत्तं निवृत्तं च द्विविवितं कर्मवैदिकम् आवर्तेत प्रवृत्तेन निर्वृत्तेनाश्नुते रथं हिंश्रं द्रव्यमयं काम्य मग्निहोद्रात्य सान्दितम् दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुश्रुतः एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च पूर्तं सुरालया राम कोभाजीव्याधिलक्षणं द्रव्यसूक्ष्मविपाकस्य धूमो रात्रिरपक्षयः अयनं दक्षिणं सोमो दर्शवोषदिवीरुदः अन्नं रेतयितिक्ष्मे पितृयानं पुनर्भवः एकैकस्येनानुपूर्वं भूत्वा भूत्वे ह जायते निषेकाधिस्म श्मशान्तै संस्कारै संस्कृतो द्विजः इन्द्रियेषु क्रियाय ज्ञान ज्ञानादीपेषु जुह्वती इन्द्रियाणि मनस्यूर्मौ शि वैकारिकं मनः वाचं वर्णसमां नाये तमोङ्कारे स्वरे न्यसेत् ओङ्कारं बिन्दौ तं तु प्राणे महत्यमुम् अग्निसूर्यो दिवा ब्राह्ण शुक्लो राघोत्तरं स्वराट् विश्वस्य तैजसः प्राज्ञ स्तुर्य आत्मा समन्वयाद् देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः आत्मयाद्युपशान्तात्मा ह्यात्मस्थो निवर्तते यये ते अयने वेदनिर्मिते शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति आधावन्ते जनानां सद् बहिरन्तःपरावरं ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् आभातितोऽपि ह्याभाषो यथा स्मृतः दुर्घटत्वात् ऐन्द्रियकं तद्वदर्थविकल्पितं षिद्यादीनाम् इहार्तानां चायानकथमापि हि न सङ्घातो विकारोऽपि न प्रथङ्गान्वितो तन्मात्रावयवैर्विना न सुर्ह्यसत्यवयविने असन्नवयवोऽन्ततः साक्षादृश्यभ्रमस्तावत् विकल्पे सति वस्तुनः जाग्रत् स्वापव्यथा स्वप्ने तथा विधिनिषेधथा भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः वर्तयन्स्वानुभूतेह त्रीन् स्वपनान् दुनुते मुनिः कार्यकारणवत्स्वैक्य दर्शनं पठतन्तुवत् अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तद्दुश्यते यद्ब्रह्मणि परे सर्वकर्मसमर्पणं मनोवाक्तनुभिः क्रियाद्वैतं तदुष्यते आत्मजायासुतादीनाम् अन्येषां सर्वदेहिनां यत्स्वार्थकामयो ऐक्यं द्रव्याद्वैतं तदुष्यते यत् यस्य वा निषिद्धं शात्येन यत्र यथो नृप स नरो नान्यैरनापधी एतैरन्त्यैश्च वेधोक्तैर्वर्तमानस्वकर्मभिः गृहेऽप्यस्य गतिं यायात् राजन् तद्भक्तिभाङ्ग् नरः यथा हि योऽयं नृपदेव तु स्त्यजात् आबद्गणादुत्तरधात्मनः प्रभोः यत्पातपङ्केरुकसेवया भवात् अहार्षीन्निर्जितदिग्गजक्रतून् अहं पुरा भवं कच्चित् गन्धर्व उपभर्हणः नाम्नातीते महाकल्पे गन्धर्वाणां नाम सुसम्मतः रूपपेशलमाधुर्यन् सौकन्ध्यप्रियदर्शनः स्त्रीणां प्रियतमो नित्यं मत्तस्तु पुरुलं पटः ये कदा देवसत्रेतो गन्तर्वाप्सरसां गणाः उपहूता विश्वश्रुभिर्हरिघातोपगायने अहं च गायन्स्तद्विद्वान् स्त्रीभिः परिवृतो गतः ज्ञात्वा विश्वस्रुजस्तन्मे हेलनं सेपु ओजसा या हि नष्टश्रीकृतहेलनः तावद् दास्यामहं जज्ञे तत्रापि ब्रह्मवादिना शुश्रुषयानुषङ्गेन प्राप्तोऽहं ब्रह्मपुत्रतां धर्मस्ते गृहमेदीयो वर्णितः पापनाशनः गृहस्थो येन पदवी मञ्जसान्यासिनामीयात् यूयं नृलोके भत भूरिभागा लोकं पुनानामुनयो भियन्ती येषां गृहाना वसतीति साक्षाद् गूढम्भरं ब्रह्ममनुष्यलिङ्गम् सभा अयं ब्रह्म महत् विमृग्यं कैवल्यनिर्वाणसुखानुभूतिः प्रियसो गृत्व खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च न यस्य साक्षाद्भव पद्मजादिभिं वस्तुतयो वस्तुतयोपवर्णितं मौनेन भक्त्योपशमेन भूचितः प्रसीदतां एष स सात्वतां पतिः श्रीशुक इति देवर्षिणा प्रोक्तं निसंयवरदर्शभः पूजाय मास सुप्रेत कृष्णं च प्रेमविह्वलः कृष्णपार्थौ उपामन्त्र्य पूजितः प्रययौ मुनिः कृष्णं परं ब्रह्म परमविस्मितः इति दाक्षायणीनां पृथक्वंसा प्रकीर्तिताः ते वासुरमनुष्याद्या लोकायत्र चराचराः इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्यां पारमहंस्यां संहितायां सप्तमस्कन्ते प्रह्लादानुचरिते युतिष्ठनारतसंवादे सदाचार निर्णेयो नाम पञ्चदशोऽध्यायः इति सप्तमस्तन्तः समाप्तः श्रीकृष्णार्पणमस्तु सर्वत्र गोपिका जीवनस्मरणं सद्गुरुनाथ महाराज के जय